गणेशपुराणम् उपासनाखण्डम् अध्यायम् एय् भृगुरुवाच इति तेनोदितं वाक्यं मुहुर्ग्लानिं प्रकुवतः करुणायुधमाकर्ण्यनोद्भिन्नं हृदयं तव व्रजात्सारतरं किं नृ ब्रह्मणात्त्वयि निर्मितम् हिंसनाद्बहुजन्तूनां मनुष्याणां सहस्रशः अधिनिष्ठुरतां प्राप्तं कृदघ्नस्येव मानसम् अवोचस्त्वं ततस्तन्तु कृतान्द इव निष्ठुरः चोर उवाच किं देवाक्यचयैर्विप्रवृदा मयि नियोजतैः अशोचरितपाण्डित्यं न्युब्जे कुम्भे यथा जलं क्वेयं मम निर्मूढक्ोपदेशस्तवाप्ययं तत्त्वचिन्तेव मधूपे साम्प्रतम्येन अर्था सक्दय सक्रय न क्वापि पितृबन्धुविचारणा यथा कामाधुरस्यापि न भीतिर्हृश्च विद्यते शुद्धिकागे द्युतकार्ये सत्यं धैर्यं नपुंसके कामशान्ति स्त्रियां सर्पे क्षमा दृष्ट्वा त्वया नो किम् अन्दिके रहितस्य मे विधात्रा दैवयोगेन नत्वा त्वा मुञ्चामि कर्षचिद भृगुरुवाच इत्युक्त्वा शिदिं खड्गं हस्त आदाय दक्षिणे च काधशिरस्तस्य बिडाल इव मौषकम् एवं ते ब्रह्महत्यानां सङ्ख्यां कर्तुं न शक्यते स्त्रीबालवृद्धजन्तूनां हत्यानां च विशेषतः संख्यादा परपापानां विभागी जायते यतः ततो बहु काले गदे कामन्ददे जरा अगदा कफोग्लानि स्वेदेहो हि काधवेपदुः अभूत्तन्द्री चोपविष्टे प्रसुप्ते न च सा भवत् अनादरं च चक्रुस्ते पुत्रदास्योथसेवकाः सुकृतश्च सुताश्चापि नप्तारोधापि मित्रकाः एक एवाभवत्तत्र दृष्ट आप्तो रहस्यकृत रहस्य कृत अनिवार्यगतिर्विप्रसचापि प्रेषितत्वया अकारयितुं सर्वां स्थान्मुनीन्काननवासिनः तेचापित्वद्भया देवद्विज त्वद्भयादेवद्विजवाक्यात् समागताः अब्रवीष्टान्नमस्कृत्य मत्तो दानानि गृह्यतां ते ब्रुवन्न च दानानि पतितस्यते। ते यजनाध्यापनाध्यौनात्सम्बन्धाद्भाषणादपि परं सञ्चरते पापं सह इति ते भाषणास्त्वां गत्वा च निजमाश्रमं स स्नुसचैलसर्वेऽपि पावमानीस्तदो जपन् ततो तापो मनसि जातःकामं तदे भृशम् आमयात्स्वजनैत्यागाद्ब्राह्मणाय परिवर्जनाद जीर्णदेवालयोद्धारे भवते मदिरूर्जिता धनं स्वं विपुलं वीक्ष्य कुप्यरत्नादिसंयुतं ततो नादिः परामूर्धिर्गणेशस्य वने शुभा जीर्णदेवालये क्षुद्रे द्विजैः ततोदिविसृतं दीर्घं चतुस्तोरणसंयुतं चतुर्द्वारं सुरुचिरं चतुःशिखरशोभितं नानास्तम्भभिदं नानावेदिभिः परिवारिदम् मुक्ता प्रवालरत्नाध्यैरचितं रुचिराङ्गणम् नानापुष्पद्रुमयुतां नानाभद्रुमैश्चितं चतुर्दिक्षुचारुवारिमयवापी विराजितम् प्रासादं निर्मितवतस्तद्रव्यं ते व्ययं गतं किञ्चित् स्त्रिया च पुत्रैश्च सुहृद्भिर्बन्धुभिर्हृदम् तदोनादिचिरे काले पञ्चत्वं च गदो भवान् याम्यदूधै कशाखादैर्बद्धसन्ताडिदो भृशं सर्वांगह शिलायां पोधितोऽपि च मज्जिदो नरगे घोरे पूयशो निदकर्दमे एवं नीतस्तुतैर्धूतैश्चित्रगुप्तय मान्दिके यमेन पृष्ट किं पुण्यमुद भोक्ष्यसि पादकं त्वम वोजपुण्यमखं पूर्वं भोक्ष्यामि सूर्य च राजत्वेन विनिर्मिदः इति ते कथितं पूर्वजन्मपापकरं मया शरणागदकारुण्यात्तपोबलसमाश्रयाद कान्तप्रासादकरणात् सोमकान्तो भवो नृपः कान्तया कान्ततरया कांद भासिकान्त्या शशीयथा सूद उवाच भृगुणाभिहितं श्रुत्वा सोमकान्दो नृपाधमः तद्वाक्ये संशयापन्न आसीदस्मेव निष्क्रियः वेदशास्त्रार्थविदुषोऽभूदभा विभवद्विदः तपस्विनो भृगोर्वाक्ये यतः दधौ निरगन्क्षणमात्रेण तस्याङ्गात् पक्षिणो भृशं नाना वर्णा कृदिधरा बभक्षुर्नृपतिं तदा उड्डीयोड्डीयचञ्चोग्रैर्दं शुर्नृपशुं दृढैः पुत्कृत्योत्कृत्य मांसानि निजक्षुस्ते मुनिसन्निधौ ततोदिदुःखिततनुसरणं पुनरागदः अवदद्दिनया वाचा भृगुं ज्ञानतपोनिधिं राजोवाच त्वद्वनेजादिवैराणां परस्परभयं न हि त्वत्समक्षं कथमिमे मृदं मां मारयन्ति च त्वत्पादप्रवणं दीनं सकुष्टं शरणागतम् इदानीं मोजय मुनेः सर्वसत्वाभयङ्कर सूत उवाच दीनवत्सलः पुनरप्याहभृगुत्स्थं दीनवत्सरः मद्वाक्यसंशयादिग्धमनुभूतं नृपत्यया प्रतीकारं वदिष्यामि स्वस्थो भवक्षणं नृप मम हुङ्कारमात्रेण गमिष्यन्ति द्विजा इमे सुत उवाच द्विजस्य पुङ्कृतिं श्रुत्वा द्विजाश्चान्दर्हितास्तथा तुतोष नृपतिश्चापि पत्न्यमात्यसन्वितौ यदि श्रीगणेशपुराणे उपासनाखण्डे नाना पक्षिनिवारणं नामाष्टमोऽध्यायः ॐ